षट् पञ्चाशः सर्गः ततस्तु शिंशपामूले पर्यवस्थिता अभिवाद्या ब्रवीद्दिष्ट्या पश्यामि त्वामिहा क्षताम् ततस्तम् सीता वीक्षमाणा पुनः पुनः भर्तृस्नेहान्विता वाक्यम् हनुमन्तमभाषता भाषता त्वम् मन्यसेता तव सैकाहमिहा नघा क्वचित् सुसंवृते देशे विश्रान्तश्वो गमिष्यसि मम चैवान्तभाग्याय वीरभूयो माम् दारयिष्यति दुःखाद्दुःखतरम् प्राप्ताम् दुर्मनः शोककर्षिता अयम् च वीरसन्देहस्तिष्ठतीव ममाग्रतः सुमहत्सु सहायेषु हर्यृक्षेषु महाबलः कथम् नु खलु दुष्पारम् सागरम् तानि हर्यृक्षसैन्यानि तौ वा त्रयाणामेव भूतानाम् सागरस्यापि लङ्घने शक्ति स्याद्वैनते यस्य तव वा मारुतस्य वा तदत्र कार्यनिर्बन्धे समुत्पन्ने दुरासदे किम् पश्यसि समाधानम् त्वम् हि कार्यविशारदः काममस्य त्वमेवैकः कार्यस्य परिसाधने पर्याप्तः परवीरघ्नयशस्यस्ते फलोदयः बलैस्तु सङ्कुलाम् कृत्वा लङ्काम् परबलार्दनः मा नयेद्यपि काकुत्स्थस्तत्तस्य सदृशम् भवेत् तद्यथा तस्य विक्रान्तमनुरूपम् महात्मनः भवत्याहवशूरस्य तथा त्वमुपपादय तदर्थोपहितम् वाक्यम् प्रश्रितम् हेतुसंहितम् निशम्य हनुमान् वीरो वाक्यमुत्तरमब्रवीत् देवि हर्यर्क्षसैन्यानामीश्वरः प्लवताम्बरः सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः सवानरसहस्राणाम् कोटिभिरभिसंवृतः क्षिप्रमेष्यति वैदेहि सुग्रीवः प्लवगाधिपः तौ च वीरौ नरवरौ सहितौ रामलक्ष्मणौ आगम्य लङ्काम् सायकैर्विधमिष्यतः सगणम् राक्षसं हत्वा त्वामादाय वरारोहे स्वाम् पुरीम् प्रति यास्यति समाश्वसिः भद्रम् ते भव त्वम् कालकाङ्क्षिणि क्षिप्रम् द्रक्ष्यसि रामेण निहतम् रावणम् रणे निहते राक्षसेन्द्रे च स पुत्रामात्यबान्धवे त्वम् समेष्यसि रामेण शशाङ्केनेवरोहिणी क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्युतः यस्ते युधि विजित्यारीन् छोकम् व्यपनयिष्यति एवमाश्वास्य वैदेहीम हनूमान्मारुतात्मजः गमनाय मतिम् कृत्वा वैदेहीमभ्यवादयत् राक्षसान् प्रवरान् हत्वा नाम विश्राव्य चात्मनः समाश्वास्य च वैदेहीम् दर्शयित्वा परम् बलम् नगरीमाकुलाम् कृत्वा वञ्चयित्वा च रावणम् दर्शयित्वा बलम् घोरम् वैदेहीमभिवाद्य च प्रतिगन्तुम् मनश्चक्रे पुनर्मध्येन सागरम् ततः स कपिशार्दूरस्वामिसन्दर्शनोत्सुकः आरुरोहगिरिश्रेष्ठमरिष्टमरिमर्दनः तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः बोध्यमानमिव प्रीत्यादिव करकरैः शुभैः उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः तो यौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् प्रगीतमिव विस्पष्टम् नानाप्रस्रवणस्वनैः देवदारुभिरुद्धूतैरूर्ध्वबाहुमिव स्थितम् प्रपातजल निर्घोष प्राकृष्टम वेपनानिव शम कंपनान शरद्वन वेणुर्मात कूज तमिवीच निश्वस तमिवामर्षा घोरैराशीशोत्तम नीहारक गंभीरध्याव गह्वर मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः कूटैश्च बहुधाकीर्णम् शोभितम् बहुकन्दरैः सालतालैश्च कर्णैश्च वंशैश्च बहुभिर्वृतम् लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् नानामृगणैः कीर्णम् धातुनिष्यन्दभूषितम् बहु प्रस्रवणोपेतम् शिलासञ्चय सङ्कटम् महर्षियक्षगन्धर्व किन्नरोरगसेवितम् लतापादपसम्बाधम् सिंहाधिष्ठितकन्दरम् व्याघ्रादिभिः समाकीर्णम् स्वादुमूलफलद्रुमम् आरुरोहानिलसुतः पर्वतम् प्लवगोत्तमः रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः तेन पाततलक्रान्तारम्येषु गिरिसानुषु सघोषाः समशीर्यन्तशिलाश्चूर्णीकृतास्ततः सतमारुह्य शैलेन्द्रम् व्यवर्धतमहाकपिः दक्षिणादुत्तरम् पारम् प्रार्थयन् लवनाम्भसः अधिरुह्य ततो वीरः पर्वतम् पवनात्मजः ददर्शसागरम् भीमम् भीमोरगनिषेवितम् समारुत इवाकाशम् मारुतस्यात्मसम्भवः प्रपेदे हरिशार्दूलो दक्षिणादुत्तराम् दिशम् स तदा पीडितस्तेन कपि नापर्वतोत्तमः ररासविधैर्भूतैः प्राविशद्वसुधातलम् कम्पमानैश्च शिखरैः पतद्धिरपि च द्रुमैः तस्योरुवेगोन्मथिताः पुष्पशालिनः निपेतुर्भूतले भग्ना शक्रायुधहता इव कन्दरोदर संस्थानाम् पीडितानाम् महौजसा सिंहानाम् निनदो भीमो नभो भिन्दन् हि शुश्रुवे त्रस्तव्या बिद्धवसना व्याकुलीकृतभूषणाः विद्याधर्यः समुत्पेतुः सह साधरणीधरात् बलिनो दीप्तजिह्वा महाविशाः निपीडितशिरोग्रीवाव्यवेष्टन्तमहाहयः किन्नरोरगन्धर्वयक्षविद्याधरास्तथा पीडितम् तम् न गवरम् त्यक्त्वा गगनमास्थिताः स च भूमिधरः श्रीमान् बलिनाथेन पीडितः सवृक्षशिखरोदग्रः प्रविवेशरसातलम् दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः धन्याम् समताम् यातः सबभूवधराधरः सलिलङ्घयिषुर्भीमम् सलीलम् लवनार्णवम् कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये सुन्दरकाण्डे षट्पञ्चाशत्